पति भबलीला मौलिमाले तवाभ कनमनुपदिमाणम् विनो ये स्पृशन्ति अमरनगरनानि शामरग्राहिणीना बिगदगलिकलङ्कादङ्कमके लूडन्ते रसि रसि झटावल्लिमुल्लासयन्ति स्वल्लोकादापतन्ति कनकगिरिगुहा गण्डशीलास्खलन्ति क्षोणि पृष्ठे जन मातङ्गकुम्भच्युतमदमधि रामोदमतालिजालम् स्नाने सिद्धाङ्गदानम् कुचयुग विगल कुम्कुमासङ्गमिङ्गम् सायं प्रातमुनिना कुशकुसुम च पिता महस्य नियमव्य अपानपात्रे जलम् पश्चात्पन्नगशायिनो भगवतः पादोदकम् पावनम् भूयशम् भुजटा विभूषणमणिर्जह्नो महषे शनाशिनि भगवति भागीरथी पातु मा शैलेद्रादमतारिणि निज जले मजनोदारिणि पारवारविहारिणि भवनय श्रेणि संसारिणि शेषागीरनुकारिणि शिवो वल्ली दनाकारिणि काशीप्रान्त विहारिणि विजयते गङ्गामनोहारिणि कुतो वीशि वीशिस्तव यदि गतालो जनपथम् त्वमापि तीरे ती नीरमात्राशनोऽहम् विगतपि शयदृशः कृष्णा राधयामि सकलकलुषभङ्गे स्वर्गसो विषम्भुसङ्गमिलिते त्वत्ति जल त्वत्तीरे वपुषो अवसानसमये नारायणादृद्वयम् सानन्दम् स्मरतो भविष्यति मम ैतात्मिका शाश्वती गङ्गाष्टकमिलम् पुङ्ग्यम् यः पठेत् प्रयतो नर सर्वपापविनिर्मुक्तो विष्णुलोकम् स गच्छति विष्णुलोकम् स विष्णुलोकं स